सप्तमोऽध्यायः पर्यत्नं भारते श्रीरामकृष्णदेवस्य देहत्यागो यदाभवत् वशिष्या युवशिष्या गुरोर्जाता अनाथा इव तत्क्षणान् स्वगेहानि पुनर्गन्तुं तरुणैस्तैर्न वाञ्छितम् वसे यो कुत्र ते चेति प्रश्नस्तेषां पुरस्थित गृहस्थशिष्यानिर्वोढुं वार्तालापं च मेलनं भवेत्तत्र स्थलं योग्यम् इति चिन्तामकुर्वत् एतद्विलक्ष्यसिद्धार्थं संविधीयेतवे समयते को दद्याद् भाटकं तद्वन् खाद्यायावश्यकं धनं गृहस्थाश्रमशिष्येषु प्रीतिपात्रीं गुरोरभूत् सुरेन्द्रनाथमिश्रस्तु यस्य साहाय्यहेतुनां भाटकेन गृहमेकं वराहनगरस्थितम् गृहीतं यत्तु शिष्याणां वासस्थानं बभूवच पश्चादाश्रमस्यैतस्य स्थानान्तरमजायत आलम्बसारितिख्यातम् अन्यग्रामं प्रतीह्यपि काशीपुरे मिश्रवर्यो व्यार्थं यद्धनं ददौ वराहनगरे तत्तु दातुं सज्जो भवत्स च परिशुद्धं चिताभस्मं गुरुदेवस्य रक्षितं तद्गृहे तस्य पूजा च कृता विशिष्ये दिने दिने नरेन्द्रस्तु सतीर्थ्याम् अकरोत् परिशीलनम् स्वक्रियगृहकार्याणि दिनकाले चकारसः सायन्तने तथा रात्रौ वसति स्म स आश्रमे सान्निध्यं तस्य सर्वेद्य आह्लादं प्रददावपि आदित्य कस्यचित् सङ्ख्यस्य जनकस्य निमन्त्रणम् गता आट पुरग्रामं शिष्या सर्वे कदाचन सहोदान्तर्यं द्विदैक्यं लक्ष्यप्रापणवाञ्छितम् एतत्सर्वं च शिष्याणाम् अस्मिन् काले दृढीकृतं संन्यासाश्रममाहात्म्यम् नरेणा विवृतवान् तथा सन्त्यक्तुं भौतकं मोहं सर्वं प्राबोधयत्स तान् कस्याचिन्नसिते शिष्या ध्यानमग्ना उपाविशन् सन्न्यासिनो यथा तृष्णीं पावकं परितो भुवि उत्फुल्लनैलो भूत्वा नरेन्द्र सहसा तदा क्रिस्तदेवं प्रति स्वस्य सतीर्थान् सममब्रवी भवेतुं क्रिस्तसदृशं मित्राणि स उपादिशत् साक्षात्काराय देवस्य मोक्षार्थं जगतस्तथा उद्दीप्तहृदया भूत्वा वह्नेश्च पुरतश्चित्वा सन्यासिनो भवितुं ते प्रतिजज्ञो स्वयंभ्यपि प्रत्यागता यदा शिष्यां स्वकक्षा कश्चिदुक्तवान् तद्दिनं क्रिस्तमश्चेति सर्वेपि मुदिता भृशं वराहनगरं भूयो यवयोगिन आगताः अङ्गीकृतं तथा तैश्च चिरमाश्रमजीवनम् आराधने समाधौ च कीर्तनालोपने तथा अध्यात्मशिक्षणे चापि दिरन्तास्ते निरन्तरं भक्षणस्वापवस्त्रादि सर्वेषु विषयेष्वपि अतिमात्रं सर्वदा पर्यपालयन् पूर्वपश्चिमदेशीयत्तत्प्रचिन्ताक्रमोपरि नरेन्द्रेण कृता चर्चा बहुशस्तरुणैः अधमानां विकाराणां दमनं श्रेष्ठचिन्तया सम्यक् साधयितुं चापि नरेण तानुपदिष्टवान् विरजो नाम होमोऽपि वराह नगराश्रमे निरूढो येन विधिवज्जाता संन्यासिनश्च ते नवसंन्यासिनामाले स्वीकृताले च तैस्तदां नरेण विविदेशानन्दनामपूर्व गृहीतवान् तत्पश्चात्सच्चिदानन्द इति संज्ञां दधारस अनन्त तेन विवेकानन्दनाम इदं नाम प्रयुक्तं तु चिकागोनगरं प्रति धर्मसम्मेलनार्थे स प्रयात केवलं यदा देशे पर्यटितुं वाञ्छा युवसंन्यासि नामभू तादृशेच्छा समुद्भूता नरेन्द्रहृदये श्यपि गतः प्रथमतः काशीं नरेन्भ्रमणवाञ्छया यत्र याता पुरा बुद्धशङ्करादिमहर्षय देवालया मुनिःश्रेष्टां पुण्यगङ्गानदी तथाम् एतत्सर्वं नरेन्द्रस्य सन्न्यासेच्छामवर्धयत् प्रत्यगच्छन्नरेन्द्र पश्चाद्वराह नगराश्रमम् ध्यानाध्यनकार्येशो पुनः स निरतो भवत् किन्तु कर्तुं परिव्रज्या अतो बराहनगराद्भूय स प्रस्थितोऽभवत् भवत। वाराणसीं यात्रां सवारेभे पुनश्च स परिव्राजकरीत्या स एतद्भ्रमणमाचरतु एकवस्त्रविधानेन गच्छति स्म स सर्वतः धनं नैव च तस्यासेत् तेन पर्यटने कृते यदि कोऽपि धनं दद्या स्वीकुर्यान्न तत्स च भक्षणं न स याचेत दीयते यदि सोऽस्नुयान् प्रमादासमित्रस्तु महासंस्कृतपण्डितः तस्य मैत्रीं नरेन्लभिलेभे काश्यां दीर्घीकृता च सा प्रेमादरौ तयोर्मध्ये जातौ वेदादिकं प्रति भाषणेन च पात्रेण श्वासायाः प्रतिपादिताः अयोध्यां स गत काश्यां लखौ चाग्रां ततः परं विलोक्य तज्जमहलहन्तवास्पुवरसुचकारस यन्ता यदा वृन्दावनं जातः नरेन्द्रनाथहृदयं विकारेण विजृम्भितं ततः परं हरिद्वारं सन्द्रष्टुं तेन वाञ्छितं हत्रासनामरेलान् स्थानं प्राप स तत्कृते आसीत् तत्र शरच्चन्द्रगुप्तस्थानाधिकार्यपि नरेन्द्रेण स आकृष्टप्रथमे दर्शने तयोः स्वकीयगृहमागन्तुं नरेन्द्रं च न्यमन्त्रयन् गतस्तत्र नरेन्द्रस्तु ह्यस्रो स्वकालमुवास च रेल्यानकर्मसंसृज्य शरच्चन्द्रो विलम्बितम् आद्यशिष्यो नरेन्द्रस्य बभूव यथार्थतो हद्रासतो नरेञ्जातो हरिद्वारं अनन्तरं शरच्चन्द्रेण सोत्साहं तस्यानुगमनं कृतम् प्रयातो तौ हरिद्वारं शिषीकेसं सन्ततो गतौ नैकसंन्यासिनो यत्र ध्यानमग्ना अवस्थिता द्रुतमेव शरच्चन्द्रो रोगेण परिपीडितः तस्य मित्रं चिकित्सार्थं भर्त्रा समनयत्यतं शुश्रूषार्थं सुशिष्यस्य यातस्तत्र नरेनपि ज्वरग्रस्तशतः पश्चान्बराः नगरं गतः शरच्चन्द्रो यदा स्वस्थसोऽपि तत्र समागतः सदानन्द इति ख्यातः सन्न्यासी स बभूवच कर्मसो तथैव शास्त्रपठने तत्र कालो गतो ह्यपिन् प्रेमार्द्रशासनाद्वारा स शिष्यगळे नरेन् स्वस्यां तथा दौत्यं गुरोश्चापि न चिन्तनं तु सतीर्थ्यानां विशाले कृतवान् असृजत्ते सुबोध विशालं भारतं प्रति अधुनातन्नरीत्या स हिन्दुधर्मं विलोकितुम् अनुसृत्य सुसङ्कल्पं नरेन्द्रो निर्दिदेशतान् सनासनं हिन्दुधर्मम् अधिकृत्य विनिर्मितान् ग्रन्थानधीतवान् सोऽपि युवसन्न्यासिभिः सह विना व्याकरणज्ञानं दुष्करं वेदशिक्षणं पठितुं पाठनीयं सततो ततो मित्राण्युपादिशत् वेदेषु चोपनिस्तस्तो यः सत्यं विशदीकृतं सामान्यमनुजैस्तत्तो प्राप्तव्यं स्याद्वाञ्च पूर्वपश्चिमदेशीयत्तत्त्वचिन्तासमन्वयः विभावितो नरेन्द्रेण कालेऽस्मिन् स्वस्य मानसे तस्य चित्ते पुनर्जातं परिभ्रमणवाञ्छितं अत स कृतवान् यात्रां भूयो वाराणसीं प्रति योगानन्दयितु तन्मित्रं व्यधि तदा श्रुत्वेदंश इलाहाबादिति इति स्थानं गतो द्रुतं सम्प्राप्ते तत्स्थले तेन ज्ञातं तस्य सुृहृत्तरां पूर्णतो रोगमुक्तो भून् ईश्वरानुग्रहादिति ततो घासिपुरं नाम प्रदेशं स गतस्तथा द्रष्टवांस पोहारे बावाख्यं सिद्धपूरुषम् तस्मिन् काले पीडितोऽभूत्कटिवेदनेया नरेन् ध्यानमाचरितुं किं वाचरितुं चापि सूक्ष्मः एतन्मध्ये तत्र मित्रम् अभेदानन्दनामकं रोगपीडितम् इत्येवं ज्ञात्वा खिन्नो नरेन्भम् वेदान्तचिन्तनं तस्य चित्ते वर्तते यद्यपि अन्येषां परितापेन नरेन्द्रो दुःखितो भवेत् विमर्तुं निज गात्रं च भुवनं च स इष्टवान् ध्यानमार्गेण यस्यार्थे बाबां प्रतिगत स च गुरु स एवेति नरेन्मन्तुं च काङ्क्ष व्यलम्बयत् किन्तु तस्य वाञ्छां दिने दिने एकस्यां निशेते स्म नरेन् बाबां विचिन्तयन् श्रीरामकृष्णोद्भूय तस्य द्वारे स्तस्तदां स्थिरदृष्ट्या नरेन्द्रस्य नेत्रे प्रतिददर्श आवर्ति तदमिदं एकविंशति रात्रिषु तस्य तात्पर्यं शयं निन्दितवान्नरेन् गुरोर्महात्मविशेषो भवच्छिन्नसंशयः नानादोषान्नरेन्द्रस्य क्षमते स्म कथं गुरुः इत्येवं एवं सत्यपि तच्चित्ते भावां प्रति निरन्तरं प्रेमादरयितो भावो यावज्जीवमवर्तत दिनेष्वेतेषु तस्यासे गङ्गो नानाजनैः सह एते सु वाक्कावाक्रातुर्यं नरेन्द्रस्य तदीयज्ञानवैभवं वैराग्यभावं व्यक्तित्वं सर्वं यस्मापयच्छतान् काशीं गतो नरेन्दश्चाद् विदितं तत्र तेन यत् तस्य सन्न्यासिमित्रे द्वे वराह नगरे मृते दुःखाकुलसभूयोऽपि प्रत्यायातो निजाश्रमं पुनः स लग्नो ध्याने च मित्राणां मार्गदर्शने वियुक्तः सन्समाजाच्च ध्यानलग्नो भवन् सदा जीवतिं तु नरेन्द्रो हि न शक्नुया सुनिश्चितम् आरभेत यदाधातुं शृणुयाद्रुतमेव सः भारतस्य दरिद्राणाम् अज्ञानां तेन रोदनम् अभवद्भौतिकोत्कर्ष पाश्चात्त्यानां न संशयः स्फोटनं तस्य जायेत निश्चयेन यदा कदा भारतस्य च लोकस्य प्रश्नानामन्तिमोत्तरम् दातुं वेदान्त एवास्ति समर्थ स व्यचिन्तयत् जीवितुं केवलं तस्माद्बराह नगराश्रवे तेनेष्टं न यदा लोकसकलस्तं समाह्वयत् सप्तविंशतिवर्षीयो नरेन्द्रो गतवानतः आश्रमाचिन्तयन् यत् स प्रत्यागच्छेत् कदापि न मदीयस्पर्शमात्रेण नवीकर्तुं कमप्यहं यावन्न शक्नुयां तावत् प्रत्यायास्याम्यहं दर... न च मत्येवं मातृदेवी च सतीर्थ्याश्च ततः आमन्त्रयन् वराह नगराद्गतः अखण्डानन्दयित्याख्य सतीर्थेन परं समं परिभ्रमण मां भां परिभ्रमणं मा रे नरेणोत्तरभारते गत्वा वाराणसीं तत्र दिनान्यल्पानि शोभवसत् त्यक्त्वा तेन यदाकाशी तेनैवं प्रोक्तवानपि यदाहं पुनरायां स्फोटेयं वह्निकोशवत् समाजोपरि लोको मां स्वायथैवानुयाचते यात्रामध्येयलाल्मोराणां स्थानं गतौ च तौ आशितो वटवृक्षाधो ध्यानमग्नो भवनरेन् प्रपञ्चो मानुषश्चापि एक एव सुनिश्चितं यत्किञ्चित् लोके शरीरेऽपि तदस्ति च अकिलं अखिलं नूनं परमाणौ वर्तते ध्यानमध्ये नरेन्द्रेण सत्यमेतत्तु बोधितम् अल्मोरायां यदा सोऽभूर्विदतं तेन तत्र यत् आत्महत्या कृता हन्त स्वगृहे निजसोदरीं नारीणां नाम भारतीयानां तु दुं स्थितिं प्रतिचिन्तयन् दुःखितसप्रबुद्धोऽपि विषयेऽस्मिन् बभूवसा ऋषिके संगत पश्चात्सुहृदासहितं नरेन् आकष्टं पीडितो जात उग्ररोगेण तत्र च समानीतश्चिकित्सार्थं निरदित्याख्यपत्तनं सन्न्यासी सतीर्थ्यास्तस्य तत्रायाताश्च केन च केचन समाधिर्प्रार्थनागानवेदाध्ययनमाचरन् पञ्चमासमितं कालं तत्स्थले उवासच उवास च भ्रमणाय पुनश्चापि नरेन्द्रो व्यग्रमालस एकाकी सन् विधातुं तदनुनाथेन वाञ्छितम् अविज्ञानं विनायात्रां यात्रां कर्तुं चापि स अतो विविं दिशानन्द इति नाम्नागत प्रयात प्रथमं दिल्लीं विविधानि स्थलानि स दृष्टवाणीतिहासे यानि मुख्यानि सन्त्यपि चतुर्थ्यास्तस्य वै केचित्तत्र तिष्ठा सुदीक्षया अनुगच्छन्तु मां नैव तादेवं निर्दिदेशस समारेभिः पुनस्यापि निजपर्यटनं नरेन् दिने स्वे पठितं पाठितं तेन भूरि गुरुदेव मुखालब्धं ज्ञानं तेन महत्तमं शास्त्रग्रन्थाध्ययनेन तस्य वृद्धिरजायत पूर्वपश्चिमसंस्कारज्ञानं पुस्तकवाचनान् तथैव विद्वत्संसर्गान् नरेन्द्रेण समर्जितम् भारतं प्रति यज्ञानं परिभ्रमणहेतुना नरेन्द्रेणाद्य संलब्धम् अपूर्वं तत्तु वस्तुतः धनिकस्य च निष्वस्य जातो बहुवारं पृथक् पृथग् एतस्य फलरूपेण नरेण याज्ञानमाप्तवान् तत्तु श्रेयो भवद्ग्रन्थपठनप्राप्तबोधनात् वेदेषु चोपनिषत्सो यत्तत्त्वं विशदीकृतम् आदितः सदन्तं हिन्दुधर्मानुयायिनः अकरोत् स यदा मायात्राम् अभिज्ञानं विवर्जितुम् स्वीकृतानि नरेन्द्रेण डाबाडि विविधान्यपि प्राप्य एकैकसंन्यासी स्वामेति ख्यायते यथा अद्यारभ्य नरेऽन्यत्र सङ्गीतस्यात् तथाविध मन्दिराणां च देवस्य बिम्बानाम् आदरं कुरु सम्बोध्य हैन्दवान् सर्वान् स्वामित्येवमुपादिशत् आल्वारीति स्थलं स्वामी प्राप्तवान् भ्रमणे कृते तत्रत्यराजेन सह वाग्वादसमजायत पाश्चात्यविधाराज्ञां धर्मोपरि विचिन्तितं व्यग्रहाराधनं तेन न कदाप्यभिनन्दितम् नृपं बोधयितुं स्वामी जतवान् बहुशो उपाय स्वामिना कश्चित् विनायन्त्यन्तरं कृतः लम्बते स्म तदा तत्र चित्तं किञ्चन भूपतेः निष्ठे वेतुं तदा लेख्ये स्वामी मन्त्रिणमादिशत् तेक्षकाशकलाहन्त सञ्जाताभयविवहाः ज्ञात एतस्य गुरुणार्थो महारागेन तत्क्षणात् चित्रदर्शनमात्रेण स्मर्यते भूपतिर्यथा बिम्बस्य वीक्षणेनैव भक्तो देवं विचिन्तयेत् अवगम्य लजाज्ञानं पश्चात्तापं निपोकरोद् अहं क्षन्तव्य इत्येवं ययाते स्वामिनं स च परमार्थानि तत्त्वानि हिन्दुधर्मस्य बोधितुम् समं पाश्चात्यम् शास्त्रं च पठितुं सोवदज्जनान् भारतीयेतिहासस्य संस्कृतस्य च शिक्षणम् कर्तुं श आहूयश्चापि तत्रत्यान् देशवासिनः अजबीरम् तथा केत्री गुजरात् नैकस्थलानि यात स नानामर्त्यान्ददर्श दृष्टानि पुण्यस्थानानि पण्डिता श्रेष्ठपूरुषाः दहो मिलितास्तेन यात्रा मध्य इतस्ततः अस्मिन् कालावधौ चित्ते स्वामिना पर्यवर्धत चिन्ता भारतदेशस्य पुनरुद्धारणं प्रति दारिद्रमज्ञतान्यैक्यम् असूयाच्छुद्रतास्तथा विलोक्य भारतीयानां स्वामि सन्तप्तमानसः किन्तु पश्चात्यरीत्या तत्परिहारं स नेष्टवान् मार्गं दर्शयितुं स्वामिवे प्रार्थयामास दैवतं चिकागोनगरे धर्मम् अधिकृत्य महासभा भवेदिति श्रुतं तेन यात्रा मध्ये कदाचना तस्मिन् भागं गृहीतुं तं केचिद्भक्ता असूचयन् खाण्डवानां स्थले तेन सम्मतं चेति भासते पश्चाद्गतसमयसूरुद्देशं तत्रत्यभूपतिः अतिथिश्चेति तं मत्वा प्रासादे तं न शिकागो मेलने भागं गृहीतुं सा आवश्यकं धनं दद्यादिति राजा तमुक्तवान् गच्छेद् रामेश्वरं स्वामी पश्चादेव स मेलनाय विदेशं किं गच्छेदिति स उक्तवान् ततः स यातो मलवारीत्याधुनिककेरलम् विद्वज्जनेन सहितं तत्र सम्भाषणं कृतं बहुश संस्कृते तेन संल्लापस्तत्र साधितः कस्यद्व्याकरणज्ञस्तु तदुत्तत्यां दोषमेक्षत मयानुश्रीयते नैव सदा व्याकरणं खलु प्रत्युत्तालो सरत्येव तत्तु मां स्वामिलोचितम् मांसाहारं विरुध्योक्तं तत्रैर्व्यक् ब्राह्मणैर्यलां वेदकालेषु तद्भुक्तं ब्राह्मणैरिति सोऽवदत् तत्र राजा गृहे नैके सृजनायपि संस्कृते भाषमाणा समालोक्य स्वामी सञ्जातविस्मयः औत्कृष्ट्यं चापि लालयितुं त्यं विशुद्धहृदयं तथा जीवनं निर्मलं तीव्रम् अभ्याजं मानसं ह्यपि उदारचिन्तनं तद्वद् अनुकम्पादृतं मनः इत्येवं सा वि आक्षातं आख्यातं तत्र केन चेत् स्वयात्रां पुनरारभ्य कन्याकुमारीं प्रसितां दक्षिणे भारते स्थिताम्